नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र लोके सर्वे जनाः दर्शनशास्त्रं ज्ञातुमिच्छन्ति इत्युक्ते प्रायेणभारतदेशे कथमस्ति इति चेत् यदा वार्धक्यं भवति तदानीं दर्शनशास्त्रस्य अध्ययनम् अपेक्षितम् इति तादृशव्यवहारः अस्ति परन्तु इदानीं दर्शनशास्त्रम् इति वदामः तद् कीदृशं भवेत् दर्शनशास्त्रं कीदृशं भवेत् अत्र दर्शनशास्त्रम् इति वदामः तत्तु सम्पूर्णं भवेत् अपि च तद् अस्माकं जीवनस्य प्रत्येकं क्षेत्रे प्रत्येकस्मिन् क्षेत्रे अस्माकं मार्गदर्शनं तेन दर्श दर्शनशास्त्रेण करणीयम् तादृशदर्शनशास्त्रमेव सम्पूर्णं भवति इत्युक्ते किमपि तत्र दर्शनशास्त्रे बहु किमपि उच्यते एवमेवम् एवमेवमेवं परन्तु तस्य व्यवहारे आनयनं कथम् इति न वदति चेत् न कोऽपि लाभः खलु तर्हि भावजडतां विना वितौट् डाग् मास् भावजडतां विना अन्धवा अन्धविश्वासं विना सम्पूर्णतया एकस्मिन् दर्शनशास्त्रे सम्पूर्णता भवेत् तस्मिन् युक्तिः तर्कः अपि भवेत् तर्कशीलस्य आधारेण तर्कशीलतायाः आधारेण तद् दर्शनशास्त्रं भवेत् इदानीं तत्र इदानीन्तनकाले अथवा बहुभ्यः दिनेभ्यः पूर्वमपि लोके व्यवहारः कथमस्ति इति चेत् तत्र रिलिजियन् इति यद् वयं तत्र बहु किमपि यदुच्यते तत्र तर्कः न भवति इत्युक्ते मम पूर्वजः एवं मम मा, पूर्वजेन एवं कृतम् इति कृत्वा अहमपि एवमेव करोमि किमर्थं करणीयमिति वयं पृच्छामः तस्य उत्तरं न लभ्यते न न तथा न प्रष्टव्यम् इति वदन्ति तदेव तत्र डाग्मा इति वदामः खलु तत्र तर्कः अस्ति वा इति वयं पृच्छामः तत्र अस्माकं ज्येष्ठाः कुपिताः भवन्ति ओ किमर्थम् एवं पृच्छति न प्रष्टव्यं तथा न प्रष्टव्यं मम मातृभिः एवं कृतं मम पितृभिः एवं कृतम् इति कृत्वा मयापि क्रियते भवानपि करोतु इति तथा व्यवहारः अस्ति परन्तु तत् समीचीनं वा तादृशव्यवहारः समीचीनं वा तत्र तर्कयुक्तः अस्ति वा इदानीं तर् जगति बहूनि शास्त्राणि सन्ति बहूनि शास्त्राणि सन्ति परन्तु तत्र सर्वत्र अस्माकं जीवनस्य मार्गदर्शनं तैः सर्वैः दर्शनशास्त्रैः अस्माकं मार्गदर्शनं कर्तुं शक्यते वा इति प्रश्नः तर्हि कीदृशदर्शनशास्त्रम् अस्माभिः स्वीकर्तव्यम् इति चेत् यत्र दोषाः न भवेयुः अपि च अस्माकं जीवनस्य प्रत्येकस्मिन् क्षेत्रे यः य यत् यत्किमपि क्षेत्रं भवतु नाम तत्र अस्माकं मार्गदर्शनं तेन शास्त्रेण अवश्यं करणीयम् अपि च तर्कयुक्त तर्कयुक्तमपि भवेत् तर्हि इदानीम् अस्माकं सामान्यतया मन अस्माकं मनसि एतादृशप्रश्नाः कदाचित् एतादृशप्रश्नाः आयान्ति इत्युक्ते अहं कः इद इदं जगत् किम् अस्ति जगत् किम् अस्ति अस्माकं तत्र लोके अस्माकं व्यवहारः कथं भवेत् अत्र व्यक्तिगतरूपेण अस्माभिः कथं व्यवहर्तव्यं सामूहि सामूहिकरूपेण कथं व्यवहर्तव्यम् अस्माकं जीवनस्य लक्ष्यं किम् इति एतादृशप्रश्नः सर्वेषां कदाचित् भवति कदाचित् यवनकाले भवति कदाचित् वार्धक्यसमये भवति अथवा कदाचित् अन्यस्मिन् समये अपि एतादृशप्रश्नानाम् उत्तरं येन शास्त्रेण दातुं शक्यते तादृशशास्त्रमेव सम्पूर्णं भवति इत्युक्ते तस्मिन् शास्त्रे कलायाः विषये अपि वक्तव्यं कीदृशकला अस्माभिः स्वीकर्तव्या विज्ञानस्य विषये अपि वक्तव्यं साहित्यस्य विषये लिटरेचर् इत्यस्मिन् विषये अपि वक्तव्यम् इतिहासस्य विषये वक्तव्यम् <त्र> तत्र आण्टालजि अस्तित्वज्ञानविज्ञानस्य विषये वक्तव्यं कास्मालजि तत्र ब्रह्माण्डीयविज्ञानस्य विषये वक्तव्यम् अपि च एपिस्टोमोलजि इत्युक्ते अत्र ज्ञानस्य विज्ञानं ज्ञानं कथं भवति इत्यपि वक्तव्यम् एतत् सर्वं वक्तव्यम् इदानीम् अत्र योगशास्त्रम् इति वयं वदामः तत्र एतेषां सर्वेषां विवरणं वर्तते एतेषां सम्यक्तया अवगमनमपि वर्तते अस्माकं जीवने एतेषां व्यवहारः एतेषु क्षेत्रेषु व्यवहारः कथं भवेत् इत्यपि अस्माकं मार्गदर्शनं भवति अन्य अन्यस्मिन् शा, शास्त्रे एवमस्ति इति वयं न पश्यामः अन्येषु दर्शनशास्त्रेषु बहु किमपि तत्र उच्यते परन्तु व्यवहारे कथम् आनयनम् इति मार्गदर्शनं न भवति परन्तु अत्र योगदर्शने सम्पूर्णतया तत्र व्यवहारे प्रत्येकस्मिन् क्षेत्रे अस्माकं व्यवहारः कथं भवेत् इति सम्यक्तया अत्र उच्यते तर्हि अन्यस्मिन् अन्यस्मिन् शास्त्रे वयं पृच्छामः चेत् जगति अस्माकं मनुष्यस्य व्यवहारः कथं भवेत् इति वयं पृच्छामः चेत् प्रायेण सम्यक्तया सम्पूर्णतया उत्तरं न अपि च कलायाः विषये प्रश्नं पृच्छामः चेत् तेषाम् उत्तरं प्रायेण न भवति ते कलायाः प्राधान्यं नास्ति अथवा दर्शनशास्त्रीकलायाः विषये किमपि न उच्यते इति ते अथवा सङ्गीतस्य विषये पृच्छामः चेत् कीदृशसङ्गी तत्र कीदृशं संगीतं.. सम्यक् भवति उचितं भवति इति वयं पृच्छामः यद् मानवस्य वर्धनार्थम् अस्माकम् आध्यात्मिकवर्धनार्थम् अपेक्षितम् इति एवं सर्वं वयं पृच्छामः चेत् तत्र किमपि उत्तरं न लभ्यते यतोहि तेषु शास्त्रेषु एतादृशविषयाणां विवरणं नास्ति यतोहि ते चिन्तयन्ति एतेषाम् आवश्यकता नास्ति अथवा तेषाम् अवधानम् अन्यत्र एव भवति परन्तु अत्र योगदर्शने तथा नास्ति अत्र प्रत्येकं प्रत्येकस्मिन् क्षेत्रे अस्माकं व्यवहारः कथं भवेत् इत्यस्य विवरणम् अवश्यं लभ्यते प्रत्येकस्मिन् क्षणे अस्माकं व्यवहारः कथं भवेत् इति केवलं योगदर्शने सम्यक्तया अत्र उत्तरं स्पष्टरीत्या उत्तरं दीयते न एकः विषयः परन्तु जीवनस्य प्रत्येकं क्षेत्रं वयं चेत् तत्र योगस्य सम्बन्धः तु अवश्यमेव भवति तर्हि अपि च तत्र योगस्य सार्वत्रिकः व्यवहारः सार्वत्रिकः व्यवहारः इत्युक्ते तत्र वसुधैवकुटुम्बकम् इति यद्वयं वदामः तदाधारेण अत्र यत्किमपि उच्यते तदाधारेण एव भवति सार्वत्रिक व्यवहारः इत्युक्ते सर्वे जनाः सर्वेषां जनानां योगस्य आप्लिकबिलिटि भवति विनियोगः भवति यः कोऽपि भवतु मनुष्यः योगदर्शनं स्वीकृत्य व्यवहर्तुम् शक्यते इत्युक्ते केवलं भारतीयानाम् एव योगदर्शनमस्ति अमेरिकदेशीयानां योगदर्शनं नास्ति इति तथा नास्ति यः कोऽपि भवतु लोके यः मनुष्यः अस्ति यस्य मानवशरीरमस्ति अपि च यस्य मनः अस्ति तस्य कृते योगदर्शनशास्त्रस्य अवश्यमेव भवति अवश्यमेव विनियोगः अवश्यं विनियोगं कर्तुं शक्यते स्पष्टतया सर्वम् अत्र उच्यते अतः तत्र योगदर्शनशास्त्रमिति यदस्ति तत् सम्पूर्णमस्ति तद तत् सम्पूर्णम् अस्ति कतम न वा इति कथं जानीमः इति चेत् यदा वयं तस्य पालनं कुर्मः जीवने तदानीमेव अवगन्तुं शक्नुमः ओ अत्र प्रत्येकस्मिन् क्षेत्रे कतम व्यवहारः भवेत् इत्यत्र सम्पूर्णतया विव विवरणं दत्तमस्ति केवलम् अस्माकं आ, तत्र कश्चन श्रमः अपेक्षितः अस्ति तद् अवगमनार्थं तत् पठनार्थं यद् अस्माकं वर्गेषु यद्वयं पठामः तत्र क्षणैः क्षणैः अग्रे गत्वा वयं तत्र अस्माकं व्यवहारः कथं भवेत् इत्यस्मिन् विषये विस्तृततया चर्चा चर्चां कुर्मः इत्युक्ते तत्र इत्युक्ते प्रायेण मनुष्येषु पशुधर्मः वर्तते तर्हि पशु पशुवृत्तयः मनुषेषु मनुषेषु पशुवृत्तयः वर्तन्ते तर्हि तेषां अथवा तासां वृत्तीनां चानलैस् अथवा कथं तत्र चानलैस् परमपुरुषं प्रति वयं लक्षीकर्तुं शक्नुमः इत्युक्ते तत्र पशुधर्मः तु सर्वेषां वर्तते परन्तु प्रथमतया अवगमनम् अपेक्षितं यद् मयि मा, पशुधर्मः वर्तते इति अवगमनं अपेक्षितमस्ति यदा अवगमनं भवति तदानीं एतादृशपशुधर्मः यः अस्ति तं धर्मम् अन्यत्र परमपुरुषं प्रति वयं यदा वयं प्रेषयामः तदानीं किं भवति इति चेत् वयं स्वयं देवः भवितुम् अर्हामः अस्माकं जीवनम् उत्तमं भवति अपि च अस्माकं जीवनस्य लक्ष्यमपि वयं साधयितुं शक्नुमः तदर्थमेव अत्र परमपुरुषं प्रति गन्तव्यं चेत् साधना अपेक्षिता प्रत्येकस्मिन् वर्गे साधनायाः विषये वयं चर्चां कुर्मः परन्तु तत् तस्य प्राधान्यं वयम् अवगच्छामः वा न वा इति प्रश्नः अस्ति यद्यपि बहुवारम् अस्माभिः उच्यते परन्तु तद्वयं सम्पूर्णतया अवगच्छामः वा न इति प्रश्नः भवति तदर्थं यैः अस्माकं शिबिरं प्रति यैः आगतं ते तु साधना इत्युक्ते का इति अवगन्तुं शक्नुवन्ति परन्तु ये एतावता न ज्ञातवन्तः तैः अवश्यमेव डिसेम्बर् मासे अवश्यं शिबिरं प्रति आगन्तव्यम् आगत्वा तत्र साधना इति कथमस्ति तत् तस्य शिक्षणम् अवश्यं स्वीकर्तव्यम् इति अत्र उक्त्वा इदानीम् अग्रे वयं किञ्चित् अग्रे गच्छामः भगिनि अस्माकं प्रश्नः अस्ति योगदर्शनशास्त्र इति पतञ्जलियोगसूत्रम् इति इङ्गितमस्ति पतञ्जलियोगसूत्रम् इति साक्षात् नास्ति परन्तु तत्र पतञ्जलियोगसूत्रे यद्यद् चर्चितमस्ति तत्सर्वम् अत्र भवति इत्युक्ते अत्र प्राचीनकालात् योगः इत्युक्ते पतञ्जलिना योगः इति न निर्मितम् अथवा अन्वेषितं खलु योगः इति योगः इति बहुकालात् वर्तते योगशास्त्रम् इति तत्र पतञ्जलियोगसूत्रे अष्टाङ्गयोगः इति यद् तैः उच्यते तदपि अत्र अस्ति योगदर्शनशास्त्रम् इति हा इत्युक्ते पतञ्जलियोगसूत्रेषु यदस्ति तदपि अत्र अस्ति इत्युक्ते तदेव तत्र योगदर्शनशास्त्रम् इति अहं वदामि योगः इत्युक्ते प्राचीनकालात् यः योगः इति स्वीकृतः अस्ति तदेव योगः इति वक्तुं शक्यते इत्युक्ते अस्मा अस्माकं ऋषयः मुनयः ये ये आसन् ये तेषां तेषां किम् अभ्यासद्वारा योगः साधना इति यद् तैः प्राप्तं तदेव अत्रापि तदेव अत्रापि मया इङ्गितमस्ति योगः इत्यनेन अस्तु कैः उच्यते पतञ्जलियोगसूत्रम् इति वेदेषु आदौ अस्ति वेदेषु अपि योगः किं किं इतिहासः यत् अस्ति पतञ्जलियोगस्य सूत्रं वेदे वेदेभ्यः आदौ अस्ति इत्युक्ते अतः योगदर्श दर्शना हिस्टारिकलि पतञ्जलि पतञ्जलि फस्ट् देन् कम्स् कैः उक्तं तथा कैः उक्तं तथा अहं यत् पतञ्जलियोगसूत्रमिति कश्चन पाठितवान् अस्माकं योग क्लास् यत् अस्ति तत्र एकमेकं सूत्राणि कृतवन्तः तस्य इति विवरणमस्ति पतञ्जलियोगस्य सः उक्तवान् कथम् इति वेदे आदौ अस्ति दत्तवान् अहं न शृणोमि तस्य इत्युक्ते तस्य विषये अहं न जानामि इत्युक्ते पतञ्जलियोगसूत्रं प्रथमम् आसीत् तदनन्तरं वेदः अस्ति इति यद् भवति वदति तस्य विषये न जानामि प्रमाणं प्रमाणं किमिति न जानामि अत्र परन्तु अत्र किं वक्तुम् इच्छामि इति चेत् अस्माकं यद् योगदर्शनशास्त्रम् इति यदस्ति तत्र पतञ्जलियोगसूत्रेषु यद्यदस्ति तद् तदस्ति तत् अधिकमपि अस्ति अत्र अत्र सम्पूर्णतया अस्ति योग पतञ्जलियोगसा योगशास्त्रे कलायाः विषये नास्ति तत्र बहु किमपि उच्यते पतञ्जलियोगसूत्रे परन्तु जीवने तस्य व्यवहार व्यवहारे तस्य आनयनं कथम् इति तत् तैः न उक्तम् एवमेवमेवम् इति वदति परन्तु तस्य जीवने आनयनं कथम् इति तैः उक्तम् तर्हि अत्र अत्र यद् यद् योगशास्त्रं वयं पठामः तत्तु सम्पूर्णमस्ति तत्र जीवनस्य प्रत्येकं क्षेत्रं तस्मिन् अन्तर्भूतं वर्तते इति तावदहं वक्तुं शक्नोमि mm -hmm. तत्र पतञ्जलियोगसूत्रस्य अपि वेदस्य सम्बन्धः कः इति तस्य विषये अहं न जानामि अपि च कृते तस्य विषये आवश्यकतापि नास्ति यतोहि यद् यद् यद् अपेक्षितम् अस्माकं कृते तत् सर्वम् अत्र एव अपि च भगिनी भवत्या पूर्वस्मिन् वर्गे ज्ञानम् अपि च भक्तिः टु बर्ड्स् आफ् टु विङ्ग्स् आफ़् अ बर्ड् इति उक्तवती खलु तत्र तस्मिन् समये ज्ञानम् इत्यस्य कः अर्थः विवक्षितः विवक्षितः अर्थः भवत्या आत्मज्ञानमित्युक्ते किं ज्ञानम् पराज्ञानमिति okay, okay. okay. okay, वा ओके ओके तावतावदेव इङ्गितं खलु ओके भगिनि अस्तु तर्हि इतोपि प्रश्नः अस्ति वा भगिनि न भगिनि अस्तु अस्तु अस्तु तर्हि अग्रे गच्छामः तत्र मम स्क्रीन् दृश्यते वा आं दृश्यते भगिनि अस्तु तर्हि किं विजयाभगिनी पठितुमिच्छति वा आं महोदय अत्र ब्रह्म बहुलानाम् एतदेव खलु महोदय आम् आं भगिनि तदेव ब्रह्म बहुलानाम् अनुचैतन्यानां परमं बहुलं इत्यतः तत् समग्रतया चैतन्यम् इति उच्यते पूर्वं दर्शितं यत् प्रत्येकम् अनुचैतन्यम् कारणरहितम् अस्ति इति तथैव ब्रह्म अपि यत् सर्वेषाम् अनुचैतन्यानां बहुलमस्ति तत् अनन्तमेव भवितुमर्हति यदा अणुचैतन्यानां बहुलता अनन्ता भवति अतः अनुचैतन्यानां सङ्ख्या अनन्ता भवेत् अत्र प्रश्नः उदेति यत् कथं ब्रह्म सर्वेषाम् अनुचैतन्यानां <garlic> बहूनां बहुगुणम् अभवत् किं ब्रह्मणः पूर्वं अनुचैतन्यानाम् अनन्तसंख्या आसीत् उत ब्रह्म स्वम् अनन्तभागेषु गुणयति गणयति वा <coughs> अनन्तभागेषु गुणयति एव वा अस्तु अतः अनुचैतन्यानां बहुलम् इति उच्यते अत्र बहुलानाम् अनुचैतन्यानां परमं बहुलम् इत्यतः एव अत्र समग्रतया चैतन्यम् इति उच्यते चैतन्यम् अत्र बहुलानम् इति ब्रह्म चैतन्यमस्ति तत्र बहुलानम् अस्ति इति पूर्वं दर्शितं यत् प्रत्येकम् अनुचैतन्यं कारणरहितम् अस्ति इति अत्र कारणरहितम् अनन्तरं निर्गुणत्वम् निराकारः एतत् सर्वं ब्रह्म ब्रह्मणः ब्रह्मणः विशेष्यरूप चिन्तनमस्ति अत्र इदानीम् अनुचैतन्यं कारणरहितमेव अत्र तदेव ब्रह्म अपि यत् सर्वेषाम् अनुचैतन्यानां बहुलमस्ति तत् अनन्तमेव भवितुम् अर्हति पूर्वमेव वयं दृष्टवन्तः एतत् अनन्तमेव अनुचैतन्यं ब्रह्म ब्रह्म अनुचैतन्यं तत् अनन्तमेव अत्र अत्र गणनं न कुर्मः एव अनुचैतन्यानां बहुलता अनन्ता भवति एव अतः अनुचैतन्यानां सङ्ख्या अनन्ता भवेत् अत्र गणनाकार्यं न कुर्मः कर्तुं न शक्यते एव अनुचैतन्यानां विषये अत्र प्रश्नः उदेति यत् कथं ब्रह्म सर्वेषाम् अनुचैतन्यानां बहुगुणम् अभवत् अत्र कारणरहितमस्ति परन्तु तत् समये एव अनुचैतन्यानां बहुगुणम् अभवत् इति अत्र द्रष्टुं शक्यते एव किं ब्रह्मणः पूर्वम् अनुचैतन्यानाम् आसीत् अत्र प्रश्नः उदेति पूर्वं ब्रह्मणः अनुचैतन्यानाम् अत्र अनन्तसङ्ख्या भवति इति वयं ज्ञातुं शक्नुमः एतत् विषयेन उत ब्रह्म स्वम् अनन्तभागेषु गुणयति अत्र अनुचैतन्यमस्ति अनन्तभागेषु अपि ब्रह्म स्वं गुणयति इति अतः अनुचैतन्यानां बहुलम् इति उच्यते अत्र सङ्ख्या किम् अस्ति इति गणनं न कुर्मः एव अतः अत्र बहुलम् इति उच्यते अनुचैतन्यानाम् इति तत्र दत्तं महोदये भगिनी भवत्याः अत्र अस्मिन् परिच्छेदे किमुक्तमिति सम्यक्तया अवगतवती इति भाति अहम् एकवारं वदामि बदा, परन्तु अत्र भवती वदतु अत्र प्रश्नः कः मूलप्रश्नः कः वा अस्मिन् परिच्छेदे अत्र कथं ब्रह्म सर्वेषाम् अनुचैतन्यानां बहुगुणम् अभवत् इति सर्वेषाम् इत्युक्ते सर्वजीवात्मा अस्ति अत्र ब्रह्म सर्वेषाम् अनुचैतन्यानां चैतन्यरूपेण एव एतदपि अनुरूपेण एव बहु गुणम् अभवत् इति एतदेव अत्र प्रश्नं प्रश्नः उदेति अत्र हा इत्युक्ते अत्र अस्तु अस्तु भगिनि धन्यवादः किञ्चित् अहं वदामि अत्र अस्मिन् करपत्रे इदानीम् अयं संसारः कः इति विषयः अस्ति इत्युक्ते इदानीं जगतः विषये वयं पश्यामः तर्हि अत्र अत्र इदानीम् आदौ प्रश्नः आयाति तत्र प्रश्नः आयाति इत्युक्ते तत्र अनुचैतन्यानि सन्ति अनुचैतन्यानि सन्ति जीवात्मा जीवात्मनः सन्ति खलु जीवात्मनः सन्ति ब्रह्म अस्ति तर्हि किम प्रथमम् आगतं किम प्रथमम् आगतं प्रथमं तत्र प्रथमं ब्रह्म आगतं वा अथवा प्रथमं जीवात्मा आगतः वा इति प्रश्नः इति एव अत्र प्रश्नः अस्ति इत्युक्ते अत्र अत्र किमुक्तमिति चेत् यानि अनुचैतन्यानि सन्ति तेषां समग्रतया ब्रह्म इति अस्ति वा समग्रतया तेषां समग्रतया च तत्र चैतन्यम् इति वयं वदामः इत्युक्ते तत्र जीवात्मा इत्यते यानि अनुचैतन्यानि सन्ति अनुचैतन्यानि इत्युक्ते अत्र यद् बीजरूपेण अस्ति अपि च यस्य नास्ति अपि च यस्य व्यक्तिकरणमपि अस्ति द्वयोः अपि गणना इत्युक्ते जीवात्मरूपेण जीवात्मा यदा इति वदामः तदानीं तत्र शरीरं लब्धं मनुष्यरूपेण शरीरं लब्धम् अथवा पशुरूपेण शरीरं लब्धम् अथवा जीवरूपेण शरीरं लब्धं तादृशजीवात्मा अपि च अपि यः जीवात्मा बीजरूपेण अस्ति इदानीम् एतावता तस्य व्यक्तिकरणं न जातं तादृशजीवात्मा यत् यस्य व्यक्तिकरणं न जातः तादृशजीवात्मा द्वयोः अपि मिलित्वा इत्युक्ते जगति यानि यानि अनुचैतन्यानि सन्ति Si व्यक्तीकृतानि अपि च अव्यक्तीकृतानि द्वयोः अपि समग्रतया मिलित्वा वयं चैतन्यम् इति वयं वदामः यता ब्रह्मणः कारणं नास्ति ब्रह्मकारणरहितं वर्तते तथैव अणुचैतन्यमपि एव अस्ति अपि कारणं रहितम् एव अस्ति ब्रह्म तदर्थं तत्र ब्रह्म सर्वेषाम् अणुचैतन्यानां बहुलमस्ति ब्रह्म अपि अनन्तं वर्तते अणुचैतन्यम् अपि अणुचैतन्यमपि अनन्तमेव वर्तते द्वयोः अपि कारण कारणं नास्ति अणुचैतन्या अपि सङ्ख्या अनन्ता एव वर्तते तर्हि इदानीम् अत्र प्रश्नः अस्ति तर्हि प्रथमं ब्रह्म ब्रह्म वा अथवा प्रथमम् अणुचैतन्यम् आगतं वा इति अत्र अन्ततो प्रश्नः अस्ति इत्युक्ते ब्रह्मणः पूर्वम् अनन्त अनुचैतन्यानाम् अनन्तसङ्ख्या आसीत् अथवा तत्र प्रथमं ब्रह्म ब्रह्म एव आसीत् प्रथमं तस्य एव अनन्तरूपेण तत्र डिविजन् अभवत् तत्र विभागः अभवत् प्रथमं ब्रह्म एव आसीत् तस्य अनुचैतन्यरूपेण तस्य विभागः जातः वा इति प्रश्नः अत्र अस्ति तर्हि जीवात्मा कारणरहितं कारणरहितः अस्ति इति पूर्वमपि अस्माभिः चर्चितं परमपुरुषः ब्रह्म अपि कारणरहितम् इति अपि अस्माभिः चर्चितं तर्हि प्रश्नः अस्ति किं पूर्वम् आगतं जीवात्मा प्रथमतया आगतः वा अथवा ब्रह्मप्रथमतया आगतं वा इति प्रश्नः अत्र अस्ति तस्य अग्रे वयं पश्यामः इदानीं विजयभग्नि अवगतं आम् अवदय अस्तु तर्हि किञ्चित् अग्रे गच्छामः तर्हि सरला भगिनी अग्रे परिचयं स्वीकरोति वा आं भगिनि अग्रे दृश्यते अस्तु पूर्वं व्याख्यातं यत् अणुचैतन्यं कारणरहितम् इति प्रत्येकं व्यक्तेः एकम् अणुचैतन्यं वा आत्मा भवति पृथ्व्याः इतिहास तु ृणोति यत् मनुष्याः कारणरहिताः न सन्ति इति मनुष्याः पृथिव्यां प्रथमतया आगताः प्राणिनः अपि न सन्ति सूर्यात् पृथ्वी निर्मिता आदौ पृथ्वी केवलम् अग्निगोलकम् एव आसीत् क्रमेण साशीता शीता जलपूर्णा अभवत् ततः भुनिः प्रादुर्भूता तदनन्तरं वनस्पतिजन्तु जन्तुः आजस्य निर्माणं जातं तदनन्तरम् एव मनुष्याः व्यक्ताः अभवन् अतः मनुष्याः स्व उत्पत्तिः अर्थः पृथ्व्याः आश्रिताः सन्ति अतः कारणरहिता इति वक्तुं न शक्यते परन्तु जीवात्मा अथवा अणुचैतन्यं कारणरहितम् अथवा तस्य मनुष्यैः सह अस्तित्वम् आगन्तुं न शक्नोति मनुष्येभ्यः पूर्वमपि जीवात्मनः अस्तित्वं स्यात् अणुचैतन्यं मनुष्याणां विकासात् पूर्वमपि अवश्यम् एव आसीत् अन्यथा कथं ते जीवात्मा अथवा अणुचैतन्यं प्राप्तुं शक्नुवन्ति स्म मनुष्याणां सृष्टेः पूर्वं केवलं भूमाचैतन्यम् एव अणुचैतन्यस्य अस्ति तत्वम् भव अस्ति अस्तित्वं भवति भवितुम् अर्हति यत् भूमाचैतन्यम् अपि च अणुचैतन्यम् यतः यतः यतः यतः भूमाचैतन्यम् अपि च अणुचैतन्यम् इति द्वौ अपि कारणरहितो स्तः का, अपि च भूमाचैतन्यम् केवलं जीवात्मानां बहुगुणाः एव मनुष्याणां सृष्ट्या अथवा विकासेन एव अणुचैतन्यम् मनुष्येषु प्रतिबिम्बितम् आसीत् भूमाचैतन्यं जीवात्मानां बहुलत्वेन तेषां पर्याय भवति एवं पश्यामः यत् अणुचैत्या अनुचैत्यानाम् अनन्तसैन्या अणुचैतन्यानाम् अनु अनन्तसङ्ख्या मूलतः पृथक् भागेषु न आसीत् ब्रह्म असङ्ख्यरूपेण अणुचैतन्येषु प्रतिबिम्बितवत् अतः एव ब्रह्म सर्वेषाम् अणुचैतन्यानां बहु गुणम् इति उच्यते एतेन अपि ज्ञायते यत् मनुष्याः केवलं भूमाचैतन्या एव स्वस्य अनुचैतन्यम् अथवा जीवात्मानं प्राप्नुवन्ति अस्तु भगिनी पङ्क्तिक्ष वदामि अस्तु पूर्वस्मिन् वयं दृष्टवन्तः अनुचैतन्यम् इति यत् जीवात्मा वयं वदामः इति कारणरहितमस्ति तस्य कोऽपि कारणम् प्रत्येकव्यक्तेः एकमनुष्य प्रत्येकव्यक्तिः यद् वयं दृष्टवन्तः जीव न केवलं मनुष्यजीवपु पशु पक्षी वा इति जन्तु अस्ति सर्वेभ्यः सर्वेषु अणुचेतनम् इति आत्मा वर्तते वयं यदि इतिहासम् इति पश्यामः तु पृथ्वी इति पृथ्वी तस्य आदौ एक अग्नेः गोलकम् आसीत् इति सूर्यं यत् आसीत् अग्नेगोलकं यत् आसीत् तस्मात् यदि यद् शीतम् अभवत् तदनन्तरं जलम् आगतः ज, ज जलात् पृथ्वी आग पृथ्वी आगता इति तस्य एकं ब्रह्माण्डे यत् वयं पृथ्वी सूर्यं ये गच्छत्र जलं वायुः इति पश्यामः तेषाम् उत्पत्तिः कथम् अभवत् इति दत्तमस्ति प्रथमं गोलकं अग्निगोलकं तस्मात् शी तदनन्तरं जलं तदनन्तरं भूमिः इति तद् यदि भूमिः इति उत्पत्तिः अभवत् तदनन्तरं शनैः शनैः तस्य एवोल्युशन् इति अभवत् तस्मात् वनस्पति प्रथमं तदनन्तरं जन्तृ एक इति कथम् इति एककोशिका तदनन्तरं बहवः कोशिका मही सेलिलर् जन्तव इति आगच्छ तदनन्तरं वयं जानीमः यत् भावन् रेल्यूषन् आसीत् वयं कथं दृष्टवन्तः इति अमीबा अमीबान् तदनन्तरं वयं दृष्टवन्तः अमीभायुनि सेलिला तदनन्तरम् एण्टि इण्डिया तदनन्तरं डिसिज् तदनन्तरं वयं दृष्टवन्तः पश्यः एनिमल् एण्ड् देन् मनुष्यः इति वयं दृष्टवन्तः अस्माकं जार्विन्स् रिवोल्युशन् थरि यत् वयं दृष्टवन्तः तथैव दत्तमस्ति वनस्पति जन्तु Uh, पशवः मनुष्यः इति <laughs> एकमेकं एकम व्यक्तिः एकमेकं एकम वयं जीव इति वदामः तस्मिन् नेते एकम् अणुचैतन्यम् इति अस्ति अणुचैतन्यस्य प्रभावेन एव यद् जीव अस्ति तज्जीवितं भवति तस्य प्रभावः नास्ति जीवस्य कोऽपि महत्त्वं भवति इति जीव <laughs> जीवित् नास्ति तत् इति विकासज प्रति अनुचैतन्यमनुष्याणां विकासात् पूर्वमपि अवश्यम् आसीत् इति किं प्रथमम् आगतं जीवप्रथमम् आगतं वा अनुचैतन्यं प्रथमम् आगतम् इति दत्तमस्ति अनुचैतन्यं तु इति जीवस्य उत्पत्तिः आदौ अपि आसीत् इदानीमपि आसीत् भविष्ये अपि आगामिकाले अपि भविष्यति तो अनुचैतन्यं यद्ब्रह्म अस्ति तस्य कालतीतः अस्ति तत् तत् जीवात्मा अनुचैतन्यमपि कालतीतः अस्ति इति एक अन्यवृष्टिः दत्तमस्ति अत्र सोपि मनुष्याणां सृष्टिः पूर्वं केवलं भूमाचैतन्य एव अनुचैतन अस्तित्वं भवितुम् यत् धूमाचैतन्यपि uh, uh, चैतन्य द्वौ अपि कारणं रहितो इति यथा इदानीम् अहम् इति न केवलं कालाचित् अपि कारणरहित अपि अस्ति वयं दृष्टवन्तः प्रथमं भूमाचैतन्यमपि तत्र प्रकृतिः यत् अस्ति तत् सुप्ता अस्ति तस्य कोऽपि न भवति धूमाचैतन्यं यत् अस्ति तत् अणुचैतन्यम् इति समानः एव अस्ति अणुचैतन्यं भूमा च तयो मध्ये भेदः नास्ति इति यत् अणुचैतन्यमस्ति तत् अपि भूमाचैतन्यमस्ति सो कथं वयं बहवः जीवात्मा जीवात्मनः इति पश्यामः जगति इति कथं बहुगुण बहुलं कथं यथा पूर्वम् परि परिच्छेदे वयं तत् आदौ किम् अस्ति जीवात्माम् आदौ अस्ति वा भूमाचैतन्यम् आदौ अस्ति किम् आदौ अस्ति वा बहु कुणाज् समग्र अनन्त जीवात्मा समग्रबहुलं यत् अस्ति तत् योजित्वा इति भूमाचैतन्यं भवति किं वस्तुतः किम् अस्ति इति प्रश्ने सति तस्य उत्तरम् इदानीम् अपि वयं न दृष्टवन्तः किन्तु एकम् इति अन्य यत् अस्ति प्रतिबिम्बम् अस्ति यत् अनुचैतनम् अस्ति तत् भूमाचैर्तनस्य प्रतिबिम्बम् अस् अस्ति अस्ति तत् जीव यस्य प्रकृते प्रभावेन यत् दृष्टवन्तः अहं महत्तत्त्वम् अहं तत्त्वं यत् चित्तमस्ति तत् तस्मिन् प्रतिबिम्ब अणुचैतन्यस्य प्रतिबिम्बं यदि आगच्छति तत् इति अणुचैतन्यम् अणुचैतन्यस्ति भूमाचैतन्यस्य प्रतिबिम्बं यथा वयं बहवः बहूनि पात्राणि जले बहुपा बहुपात्राणि जलं स्थाप्य स्थाप्य इति स्थाप स्थापय स्थापय स्थापयामः तत्र यत् सूर्यस्य प्रतिबिम्बमागच्छति सर्वेषु पात्रेषु यत् जलमस्ति तस्मिन् तस्य प्रतिबिम्बमस्ति वयं यत् प्रतिबिम्बमस्ति तत् वयम् अनुचेचन इव वयं वदामः किन्तु तत् सूर्याद्भिन्नमस्ति तत् यत् प्रतिबिम्बमस्ति तत् सूर्याद्भिन्नं नास्ति भूमचैतन्य अपि अणुचैतन्यम् एव समानम् अस्ति अपि अणुचैतन्य बहवः न सन्ति इति एकमेव सूर्यम् अस्ति अणुचैतन्यं बहवः दृश्यते किन्तु इति केवलम् आभासः अस्ति किन्तु बहवः प्रस्तुतः न सन्ति इति साधु भगिनि आमां भगिनि आं सम्यक् तर्हि इत्युक्ते समीचीनं भगिनि इत्युक्ते मनुष्याः कारणरहिताः मनुष्याः कारणरहिताः इति वक्तुं न शक्यते मनुष्याः मनुष्यैः कथम् आगतम् इति अस्माभिः पूर्वमपि दृष्टं तत्र डार्मिनियन् एविलिषियन् इत्याधारेण मनुष्याः आगताः इति अस्माभिः पूर्वमपि चर्चितम् तर्हि प्रत्येकं मानवस्य आरम्भः अपि अस्ति अन्तः अपि अस्ति मनुष्याणाम् आरम्भः अस्ति मनुष्य मनुष्यः इति जातिरूपेण वयं पश्यामः चेत् तस्य आरम्भः अस्ति तर्हि परन्तु जीवात्मनः आरम्भः नास्ति जीवात्मनः जीवात्मनः कारणं नास्ति यथा ब्रह्मणः कारणं नास्ति तथा जीवात्मनः अपि कारणं नास्ति यदा वयं पृष्ठतः वयम् आरभतः वयं पश्यामः चेत् तर्हि सर्वस्य सर्वस्य आधारः अन्ततो गत्वा ब्रह्म एव सर्वस्य आधारः अस्ति खलु इदानीं ब्रह्मणः आकाशः सम्भूतं ब्रह्मणः आकाशः सम्भूतः आकाशात् वायुः वायोः अग्निः अग्नेः आपः अभ्यः अभ्यः पृथ्वी इति तत्र क्रमः अस्ति तर्हि पृथ्वी यदा आगता तदनन्तरमेव मानवाः आगताः तत्रापि क्रमः अस्ति प्रथमं यदा पृथ्वी पृथ्वी आगता तदानीं तत्र प्रथमं तत्र यथा भगिनी उक्तवती एककोषजीवाः तदनन्तरं सस्यानि अनन्तरं पशवः तर्हि अन्ततो गत्वा एव मानवाः आगताः तर्हि मानवानाम् आरम्भः तेषाम् अवश्यम् आरम्भः अस्ति परन्तु जीवात्मनः आरम्भः नास्ति तर्हि इदानीम् अस्य अर्थः कः इति चेत् मनुष्यात् पूर्वं जीवात्मा अवश्यमेव आसीत् वयं uh, जीवात्मा इति सामान्यतया वयं वदामः हि जीवात्मा न केवलं मनुष्येषु परन्तु अन्येषु प्राणिषु अपि वर्तते अन्येषु जीवेषु अपि जीवात्मा वर्तते तर्हि जीवात्मा मनुष्यात् पूर्वमपि आसीत् जीवात्मा पूर्वम् आसीत् पशुः वा भवतु पक्षी भवतु अथवा कीटः भवतु अथवा अन्यकोपि जीवः भवतु तस्य सर्वस्यापि आधारः अस्ति अथवा मनुष्यः भवतु यः कोऽपि जीवः भवतु तस्य आधारः अस्ति तस्य आधारः अस्ति इदानीं मनुष्यः इति वयं वदामः चेत् सर्वत्र नास्ति एकस्मिन् क्षणे एकस्मिन् काले एकत्र एव अस्ति इत्युक्ते एकस्मिन् क्षणे एकस्मिन् काले सः एक एकं विषयमेव जानाति सर्वं न जानाति सः सर्वज्ञः नास्ति सर्वत्र नास्ति मनुष्यस्य मनुष्ये यः जीवात्मा अस्ति जीवात्मनः तस्य मनसा तस्य संयोगः अस्ति तर्हि जीव जीवः जीवः जीवः यदा मनुष्यः यदा नासीत् तदानीमपि जीवात्मा आसीत् जीवात्मा सर्वदा आसीत् बीजरूपेण आसीत् बीजरूपेण आसीत् यदा मनुष्यः आगताः तदानीं व्यक्ति जीवात्मनः व्यक्तिकरणं जातं तर्हि जीवात्मा अपि असङ्ख्यरूपेण जीवात्मा वर्तते इत्युक्ते तत्र बीजरूपेण वर्तते अथवा तस्य व्यक्तीकरणं जातम् इत्युक्ते मनसा तस्य संयोगः जातः मनुष्यशरीरे इति अथवा पशुशरीरे वा भवतु अन्यजीवस्य शरीरे वा भवतु तर्हि तदा तथा अस्ति परन्तु एतेषां सर्वेषां जीवात्मनां समग्ररूपेण वयं ब्रह्म अथवा पुरुषः इति वयं वदामः तर्हि परंतु सर्वेषाम् अन्ततो गत्वा सामग्री सामग्री का इति चेत् सामग्री सः पुरुषः एव सामग्री ब्रह्म एव साम सामग्री अस्ति तत्र प्रकृतिपुरुषः इति अत्र ब्रह्म ब्रह्मणि अंशद्वयं वर्तते प्रकृतिः पुरुषः इति अस्मिन् जगति यद्यद्वर्तते सर्वेषां सामग्री ब्रह्म एव तर्हि यदा वयं जीवात्मनः बहुलम् इति वयं वदामः यदा वयं वदामः तर्हि अस्माकं विवक्षा का इति चेत् अस्माकं विवक्षा अस्ति यत् ब्रह्म एव अन्ततो गत्वा सामग्री अस्ति सर्वेषाम् इत्युक्ते ब्रह्मणः एव सर्वम् आगतम् अस्ति अन्ततो गत्वा पुरुषः एव सामग्री पुरुषः अन्यस्मात् पुरुषः आगतः इति नास्ति अन्यत् सर्वं पुरुषात् अन्यत् सर्वम् आगतमस्ति यदि तत्र तण्डुलः अस्ति चेत् तण्डुलात् वयं तत्र किमपि अन्नं कर्तुं शक्नुमः तण्डुलं नास्ति चेत् तण्डुलः नास्ति चेत् तदा अन्नं कर्तुं न शक्यते खलु ब्रह्म नास्ति चेत् अन्यत् किमपि न भवितुमर्हति जगति अन्यत् सर्वं ब्रह्मणः अन्यत् सर्वम् आगतमस्ति यदा वयं तण्डुलं स्वीकुर्मः तत्र जले जलस्य योजनं कुर्मः अपि च जलसंयोगेन तस्य क्वथनं भवति तदानीं घटे तत्र अन्नं भवति समानरीत्या इत्युक्ते जगति सर्वं तथैव अस्ति इत्युक्ते पुरुषः पुरुषः तथा नास्ति पुरुषस्य अन्यत् अन्यः आधारः नास्ति पुरुषः एव अन्ततो सर्वस्य आधारः अस्ति तर्हि अन्ततो पुरुषः एव सामग्री अस्ति यस्मात् सर्वं निर्मितम् अस्ति पुरुषः अन्यस्मात् आगतः नास्ति परन्तु जीवात्मनः विषये तथा न वक्तुं शक् शक्यते जीवात्मा जीव जीव जीव जीवस्य विषये इत्युक्ते ति जीवात्मा नास्ति जीवन तत्र मनुष्याः वा प्राणी वा यत्किमपि भवतु तस्य विषये तु तथा वक्तुं शक्नुमः तस्य आरम्भः अस्ति इत्युक्ते इदानीं जीवात्मनः विषये वयं पश्यामः चेत् सृष्टिचक्रे सृष्टिचक्रे जीवात्मा इति तत्र पुरुष पुरुषात् एव जीवात्मनः विभागः जातः अस्ति पुरुषात् अत्र सिष्टिचक्र शिष्टिचक्रम् इति वयमग्रे किञ्चित् इतोपि विस्तृततया पश्यामः सिष्टिचक्रे तत्र जीवात्मनः जीवात्मनः पुरुषात् जीवात्मनः विभागः जातः इत्युक्ते जीवात्मा अपि पुरुषः अस्ति इत्युक्ते समुद्रः अस्ति समुद्रे जलं वर्तते तर्हि तत्र एकम् एकः चषकः वर्तते इति चिन्तयतु चषकः तत्र मनसः मनसः प्रतिनिधिरूपेण चषकः वर्तते चषके यत् जलम् अस्ति तत् जलमेव जीवात्मा तर्हि बहिः यद् जलमस्ति अपि च चषके यद् जलमस्ति द्वयोः भेदः नास्ति यदि तत्र चषकः नास्ति तदानीं तस्मिन् यत् जलमस्ति अपि च ब बहिः यज्जलमस्ति द्वयोः भेदः नास्ति द्वयोः मेलनम् एव भवति तर्हि तत् तत् जलं तस्य विभागः कथं जातम् इति चेत् सृष्टिचक्रे यदा तत्र आ, आ, तत्र क्रमेण क्रमेण किं भवति इति चेत् पुरुषस्य चैतन्यस्य विभागः जीवात्मरूपेण भवति तत्र जीवात्मा अपि पुरुषः एव पुरुषात् भिन्नः नास्ति जीवात्मा अपि भ्रम एव अस्ति तदपि अनादि अनन्त अनन्तसत्ता एव तर्हि यदा तस्य विभागः भवति जीवात्मरूपेण तदानीं तत्र मनुष्ये मनुष्ये अपि जीवात्मस्य जीवात्मनः मनसा तत्र संयोगः भवति प्रत्येकस्मिन् मानवशरीरे जीवात्मा वर्तते परन्तु जीवात्मा परमात्मा द्वयोः भेदः नास्ति यदा भगिनी उक्तवती जीवात्मा परमात्मा भिन्नं नास्ति जीवात्मा बीजरूपेण वा भवति अथवा यदा तस्य शरीरे तस्य स्थानं भवति स्थानं भवितुमर्हति द्व द्वयोः अपि जीवात्मा इत्येव वयं वदामः द्वयोः द्वयोः अपि साम्यं वर्तते बीजरूपेण जीवात्मा अस्ति तदपि परमात्मा एव अथवा एकस्मिन् शरीरे जीवात्मा अस्ति तदपि परमात्मा एव परन्तु जीवात्मा इति परमात्मनः विषये परमात्मनः शरीरम् अपेक्षितं नास्ति परमात्मा, शरी, परमात्मा शरीर परमात्मनः विषये शरीरस्य अपेक्षा न वर्तते परन्तु जीवात्मनः विषये तत्र शरीरम् आवश्यकमस्ति व्यक्तीकरणार्थं नो चेत् तत्तु बीजरूपेण एव वर्तते अस्माभिः अत्र ये अत्र अस्मिन् वर्गे ये सन्ति तेषां सर्वेषामपि प्रत्येकस् प्रत्येकस्मिन् एकः जीवात्मा अवश्यं वर्तते यस्य संयोगः मनसा शरीरेण सह वर्तते यता तत्र यथा तत्र अग्निः यता अस्ति अग्नौ याः दहनशक्तिः अस्ति तस्य पृथक्करणं न शक्यते एवं जीवात्मा अस्माकं शरीरेण सह सम्यक्तया संयुक्तः अस्ति तस्य पृथक्करणं न शक्यते यावत्पर्यन्तं मरणं न भवति न मरणं न भवति तर्हि इदानीं तत्र मनुष्यः तु प्रथमतया मनुष्यः प्रथमतया न आगतः प्रथमतया तत्र सूर्य अग्निगोलकः आसीत् तदनन्तरं क्षणैः तस्य किम शीतलं जातं तदानीं जलरूपेण परिवर्तितं तदनन्तरम् अन्ततो गत्वा पृथ्वी आगता तत्पश्चात् क्रमेण विकासः जातः एककोशिकजीवः आगताः तदनन्तरं सस्यानि आगतानि तदनन्तरं पशवः आगताः तत्पश्चात् एव मनुष्याः movement आगताः मनुष्येषु अपि चैतन्यं वर्तते परमात्मनः प्रतिबिम्बः मनुष्येषु अपि वर्तते तर्हि मनुष्येषु चैतन्यं कथम् आगतम् इति चेत् चैतन्यं पूर्वं पृथिव्यां स्यात् तदानीमेव मनुष्येषु चैतन्यम् आगन्तुं शक्यते तर्हि पृथिव्यां कथं चैतन्यम् आगतम् इति चेत् तद् तु जलात् आगतम जले कथं चैतन्यम् आगतम इति चेत् तत्तु अग्नेः आगतम् अग्नौ कथम् अस्ति इति चेत् तत्तु वायुतः चैतन्यम् आगतं वायौ कथमस्ति इति चेत् अन्ततो गत्वा आकाशात् आगतम् आकाशे चैतन्यं कथमस्ति इति चेत् वयम् अन्ततो गत्वा पश्यामः चेत् ब्रह्मणः चैतन्यम् आगतं ब्रह्म एव परिवर्तितम् आकाशरूपेण परिवर्तितं वायुरूपेण परिवर्तितम् अग्निरूपेण परिवर्तितं जलरूपेण परिवर्तितम् अनन्तरं तत्र पृथ्व्यां पृथ्वीरूपेण परिवर्तितं पृथ्वीतः तत्र मनुष्येषु चैतन्यम् आगतं तर्हि तत्र सर्वेषाम् आधारः तु भ्रम एव अस्ति भ्रमणः एव मनुष्ये मनुष्येषु चैतन्यम् आगतम् इति वक्तुं शक्नुमः अत्र कोपि प्रश्नः अस्ति वा स्पष्टमस्ति अतः एव वयं वदामः ब्रह्म सर्वेषाम् अनुचैतन्यानां बहुगुणं वर्तते इट इस् अ मल्टिपल् आफ् आल् द अनुचैतन्यास् अस्तु तर्हि किञ्चित् अग्रे गच्छामः प्रियवग्नि पठति वा ीनः न सन्ति यतः तेषाम् उत्पत्तिः पृथिव्याः आश्रिताः अस्ति यदि ते पृथिव्याः उत्पन्नाः सन्ति तर्हि तेषाम् जीवात्मा अपि पृथिव्याः एव प्राप्तः स्यात् ते अन्यस्याः सत्तायाः प्राप्तुः प्राप्तुम् न शक्तवन्तः अतः पृथिव्याम् अपि चैतन्यम् अवश्यम् स्यात् यथा घृतम् क्षीरात् प्राप्तुम् शक्यते यतो हि घृतम् क्षीरे विद्यते इत्यतः तथैव पृथिव्याम् जीवात्मा विद्यते अन्यथा पृथिव्याः प्राप्तस्य मानवशरीरस्य जीवात्मा न भवितुमर्हति घृतम् क्षीरे भवति चेदपि यावत् मतनयन्त्रस्य सहाय्येन पृथक् न भवति तावत् परिचयः कर्तुम् न शक्यते तथैव जीवात्मा पृथिव्याम् अज्ञातः अथवा सुप्तः भवति यदा मानवमनः तस्य प्रतिप्रतिबिम्बा प्रतिबिम्बार्थं निमित्तं भवति तदा एव जीवात्मा निर्मितं प्रतिबिम्बार्थं निर्मितं भवति प्रतिबिम्बार्थं निर्मितं भवति तदा एव जीवात्मा प्रतीयमानः भवति अतः पृथिव्याम् अपि चैतन्यम् विद्यते इति स्वीकारणीयमेव पृथिवीं सूर्यात् निर्मितम् अस्ति तथा च सूर्यः केवलम् अग्नि सोरि अग्निगोलकः अस्ति यस्य अस्तित्वम् मुख्यतया वायु वायवीयभूते वाय दृश्यमानानाम् केषाञ्चन वायूनाम् आश्रितं भवति हा। सूर्य स्व अस्तिम वायुभूत अस्ति आश्रि तस्मा वा उत्पन्न चत वायुभूत आकाशभूतमाश्रित यहाँ आकाश, आकाश नासी तयो अस्ति स्थान न स वायु उत्पत्ति स्थान आकाशभूते शक्य आकाशभूतः एव स्रोतः अस्ति वायोः सूर्यस्य पृथिव्याः वायोः सूर्यस्य पृथिव्याः तथा ततः मान मानवस्य च मनुष्याः मनुष्यस्य आरम्भहीनता न अस्ति तत् तत्र अस्ति उत्पत्ति आरम्भहीनाः न सन्ति इत्युक्ते तेषाम् आरम्भः वर्तते आरम्भ आरम्भ मनुष्यस्य आरम्भम् अस्ति एव सो मनुष्याः उत्पत्तिः पृथिव्याः आश्रितः भवति अपि च यदि मनुष्यः पृथिव्याः यदि ते पृथिव्याः अत्र ते इति मनुष्याः अस्ति न यदि ते पृथिव्याः उत्पन्नाः सन्ति सो यदि मनुष्याः पृथिव्याः उत्पन्नाः सन्ति तर्हि तेषां जीवात्मा अपि पृथिव्याः एव प्राप्तः स्यात् तो जीवात्मा अपि पृथिव्याः एव प्राप्तः कथं भवितुम् अर्हति भगिनी स्थूलशरीरः तु पृथिव्याः उत्पन्नः भवति किन्तु आ, जीवात्मा अपि पृथिव्याः इति इत्येव अस्ति इत्येव अस्ति इत्युक्ते पश्यतु इत्युक्ते प्रथमतया केवलं ब्रह्म एव आसीत् खलु ब्रह्मणः आकाशः सम्भूतः ओके फ्रम् ब्रह्म आकाश केम् फ्रम् आकाश वायु फ्रम् वायु अग्नि अग्नेः आपः फ्रम् वाटर् फ्रम् जलं केम् पृथ्वी अण्ड् फ्रम् पृथ्वी दि ह्यूमन् बीङ्ग्स् एमर्ज् इन् क्रमेण ओके फस्ट् दि सिङ्गल् आर्गनिज़म् एन् प्लाण्ट्स् देण्ड् एनिमल्स् देन् फैनल्लि ह्यूमन् बीङ्ग्स् इवाल्ड् रैट् सो ह्यूमन् बीङ्ग्स् हाव् अ चैतन्यं दि हाव् अ जीवात्मा so where did this jeevatma come from right it, it is it must have come from prithvi but how did prithvi get this jeevatma right it must have come from the previous element how did the previous element come it, we keep going backwards so finally we come to akasha so from akasha in in going through to different bhutas uh, prithvi gets it and how did the akasha get it is coming from brahma so brahma himself manifested as has this whole universe he manifested as akasha he manifested as uh, ah uh, uh, vayu he manifested as agni he manifested as jalam and then he manifested as earth then he manifested as human beings so how did the human being get the chaitanya it is from the previous element so ultimately the source is brahma alagam yateva asu bani manushya shariram tu tatha nirmitam iti maya ashrutam hmm पृथिव्याः वायुः इति किन्तु जीवास्माभिः तथैव कृतम् इति इत्युक्ते सर्वं ब्रह्म खलु सर्वं ब्रह्म सर्वं ब्रह्म सर्वं कल् इदं कल्विदं ब्रह्म तर्हि तत्र इत्युक्ते ब्रह्म एव अस्ति ब्रह्मणः एव सर्वं सृष्टं खलु ब्रह्मणः एव सर्वं सृष्टं तर्हि इदानीं तत्र तदर्थमेव अत्र उदाहरणं दत्तमस्ति यदि तत्र तीरे यदि तत्र नवनीतं नास्ति चेत् घृतं नास्ति चेत् क्षीरे यदा घृतं नास्ति चेत् तर्हि घृतस्य पृथक्करणं कथं शक्यते क्षीरे घृतं स्यात् तदानीं तस्य पृथक्करणं मतनं यदा कुर्मः तदानीं तस्य पृथक्करणं भवति क्षीरस्य मतनेन घृतस्य पृथकरणं भवति एवं तत्र पृथ्व्यां चैतन्यं नास्ति चेत् कथं तत्र मनुष्येषु चैतन्यं प्राप्तुं शक्यते तर्हि पृथिव्यां चैतन्यम् अवश्यं भवेत् पृथ्वी पृथ्व्यां चैतन्यं कथमागतम् इति चेत् पूर्व पूर्वस्मात् भूतात् आगतं पूर्वस् पूर्वस्मिन् भूते कथं चैतन्यम् इति चेत् साक्षात् ब्रह्मणः ब्रह्मणः एव विवर् विवर्तितं ब्रह्म एव विवर्तितम् एतादृशरूपेण मेकिङ्ग् सेन्स् तदेव तदेव यताक्षी भवती एव उक्तवती वदतु वदतु भवती सो सो पृथिवी एव चैतन्यं दीयते मनुष्यस्य मनुष्यस्य जीवात् जीवात् जीवात्मा आत्मन् किल जीवात् किमर्थमिच्छति जीवात्माय न भवति जीवात्मने आत्मनि जीवात्मनि uh, पृथिवी uh, चैतन्यं uh, पृथिव्याः चैतन्यमपि अवश्य चैतन्यम् अवश्यं दीयते यथा कृतं प्राप्तुं शक्यते चेत् प्रथमं क्षीरं भवति क्षीरात् नवनीतम् उत्पन्नं नवनीतात् कृतं किन्तु नवनीतात् किञ्चित् परिवर्तनं करणीयं वायु सोरि अग्नि प्रथमं क्षीरस्य मतनम् अनन्तरं भवनीतस्य अग्नि किम, पाकं कृत्वा एव घृतं प्रातं तथैव जीवात्मा अपि पृथिव्यां तथैव जीवात्मपि पृथिव्याम् इत्युक्ते सप्तमी पृथिव्यां सुप्तः भवति किन्तु स्वयं न जानाति पृथिवी आधारेण एव तत् अपि निर्मितं न अस्ति इति किन्तु भवति एव मानवमनः अपि तथैव प्रतिबिम्बं प्रतिबिम्बरूपेण एव निर्मितम् अस्ति अतः पृथिव्याः प्रभावम् अपि तत्र अस्ति एव न प्रतिबिम्बरूपेण निर्मितमिति न मानवस्य मानवस्य मनः जीवात्मनः प्रतिबिम्बार्थं निर्मितमस्ति अस्माकं मनः वर्तते इति कृत्वा जीवात्मनः प्रतिबिम्बः अस्ति मनः नास्ति चेत् जीवात्मनः प्रतिबिम्बः न भवति खलु यु हाव् टु थिङ्क् आफ् एव्रिथिङ्ग् एस् पुरुष अण्ड् प्रकृति एव्रिथिङ्ग् इस् पुरुष अण्ड् प्रकृति सो वि हाव् ओन्लि टु पुरुष अण्ड् प्रकृति वेन् देन् द गुणास् आफ् प्रकृति इन्फ्लुएन्स् द पुरुष देन् पुरुष अपियर्स् एस् आकाश देन् देर् इन् आकाश आल्सो वि हाव् प्रकृति एण्ड् पुरुष then then again the gunas of prakriti influences akasha then akasha becomes into vayu again in vayu also you have purusha and prakriti the same way you keep going down to earth what is earth you have purusha and prakriti that's all you have then when you when you have the human beings uh, human beings get that that purusha from earth because earth is nothing but purusha and prakriti and when we look at human beings human beings is nothing but purusha and prakriti everything in this world is nothing but purusha and prakriti that's all just in different, different modified forms of Purusha and Prakriti. When the gunas of Prakriti influence the Purusha, he appears in all these various forms, these diverse forms. So everything ultimately what we see is only Purusha and Prakriti. Is it making sense? I'm going to... I'm going to ask a question about Abut. Mm, so, Manava Manaha Api, Uh, प्रतिबिम्बार्थं uh, जीवात्मा प्रतिबिम्बार्थं जीवा uh, जीवात्मनः प्रतिबिम्बं uh, निर्मितम् uh, अस्ति uh, अतः पृथिव्यां चैतन्यम् अपि अस्ति विद्यते इति uh, स्वीकरणीयमेव uh, पृथिवी अपि चैतन्य वस्तु एव uh, पृथ्वी सूर्य सूर्यातः निर्मितमस्ति सूर्यः केवलम् अग्निगोलकः न वा तस्य अस्तित्वमपि अग्निमू अग्निमू अग्नि आधारितम् अग्नि अंशम् अस्ति अंशं नास्ति अग्निप्रतीकम् अस्ति सूर्यः अपि सः सूर्यस्य अग्ने सूर्यः अपि अग्नेः निर् अग्नेः निर्मितम् अस्ति न अग्नेः निर्मितमिति न सूर्यः इत्युक्ते अग्निगोलकमेव अग्निस्वरूपमेव सूर्यः सोरि सोरि सूर्यः न वायोः वायु वायुभूते वायुभूतात् निर्मितम् अस्ति सूर्यः सो वायु आश्रितम् अस्ति अग्निः अपि तथैव वायु अपि आकाश आकाशतत्त्व आकाशतत्त्वस्य आश्रित आकाशतत्वम् आश्रितः अस्ति तथैव आकाश अपि ब्रह्म ब्रह्मणः आश्रि ब्रह्मणम् आश्रित आश्रितमस्ति तर्हि तत्र सो वायु सो तत्र भ्रमणः नास्ति चेत् आकाशतत्त्वं न भवति आकाशतत्त्वं नास्ति चेत् तत्र वायु वायुतत्त्वं न भवति वायुतत्वं नास्ति चेत् अग्नितत्त्वं नास्ति अग्नितत्त्वं नास्ति चेत् पृथिवी तत्त्वं नास्ति अतः एतानि सर्वाणि ब्रह्म ्रह्माणम् आश्रितः एव सन्ति आकाशभूतः एव श्रोतः अस्ति आकाशभूतः एव वायोः श्रोतः एव श्रोतः अस्ति वायोः सूर्यस्य पृथिव्यः तथा मानवस्य च एतत् mm. किं uh, uh, uh, Brahma eva ब्रह्म एव मूलस्रोतः अस्ति हीस् अ सोर्स् ब्रह्मणः आकाशः सम्भूतः फ्रम् ब्रह्म आकाश From Akasha, आकाश वायु From Vayu, वायु अग्निः सूर्यः किं फ्रम् फ्रम् दि अग्नि आपः किं वाटर् किम् एण्ड् फ्रम् वाटर् पृथ्वी किम् अण्ड् फ्रम् पृथ्वी द ह्यूमन् बीङ्ग्स् एमर्ज् एव अस्ति इत्युक्ते यदा क्षीरे घृतं भवति परन्तु वयं द्रष्टुं न शक्नुमः खलु क्षीरे घृतं द्रष्टुं न शक्नुमः परन्तु यदा तस्य मतनं यदा क्रियते तदानीं तत्र तत्र किं तत्र घृतं लभ्यते खलु घृतं लभ्यते तस्मिन् अन्तर्भूतम् अस्ति घृतं लभ्यते एवं केवलम् अत्र क्रमः एव उल्लेखितः अस्ति एवं मनुष्याः अपि मनुष्यस्य आधारः कः इति चेत् मनुष्याः मनुष्येषु मनुष्याः पृथ्वीतः आगताः मनुष्याः अस्य विषये कोऽपि अधिकं चर्चां कुर्मः इत्युक्ते अत्र समग्रतया अत्र उच्यते तर्हि मनुष्याः पृथ्वीतः आगताः मनुष्येषु यदि चैतन्यं वर्तते तत् चैतन्यं कुतः आगतं यदि पृथ्व्यां नास्ति तर्हि मनुष्येषु कथं प्राप्तुं शक्यते तर्हि चैतन्यं पृथिव्याम् अवश्यं स्यात् तर्हि पृथिव्यां चैतन्यं कथम् आगतम् इति चेत् पृथ्वी कथम् आगता इति वयं पश्यामः चेत् तत् क्रमेण आगता जलात् आगता पृथ्वी प्रथमं जलमेव आसीत् तदनन्तरं तत्र पृथ्वी आगता लेण्ड् आगता जलं कथमागतम् इति चेत् तत्र पूर्वम् आकाश पूर्वम् अग्निरूपेण आसीत् तदनन्तरं तत्र जलरूपेण आगतम् अग्निः कथम् आगता आगतः इति चेत् पूर्वं तत्र वायुरूपेण आसीत् तदनन्तरं जलमागतं वायुः कथम् आगतः इति चेत् तत्र आकाशात् वायुः आगतः आकाशः कथम् आगतः इति चेत् आकाशः स्वयं ब्रह्मणः आगतः इति वयं कार्यकारणभावं द्रष्टुं शक्नुमः परन्तु अन्ततो गत्वा वयं पश्यामः चेत् ब्रह्मणः कारणं नास्ति ब्रह्म कस्माचित् आगतम् इति वक्तुं न शक्नुमः इति वयं द्रष्टुं शक्नुमः अत्र स्पष्टमस्ति वा भगिनि श्रोतः इत्युक्ते किं महोदय The akasha is the source for vayu uh, fire earth everything and what is the source for akasha is coming from brahma brahma is the ultimate source for everything brahma is a, is the ingredient out of which everything is made brahma iti va idam eva idamah prakriti purusha prakriti purusha yad kim api bhavatu nama asmin jagati sarvam bramanah eva agatam prakriti hi purusha prakriti purusha purusha which is bound up by the gunas everything That is why everything appears in different form and shape because of the influence of the gunas. They appear in diverse forms. But ultimately, everything is Purusha and Prakriti. The blade of grass is Purusha and Prakriti. The book in front of me is Purusha and Prakriti. The computer is Purusha and Prakriti. Everything is Purusha and Prakriti. That is all it is. How are you talking about Bhagini? Priya Bhagini? समीचीनमेव अस्य विषये इतोपि किञ्चित् अग्रे अवगतं श्रोतः पश्यतु बेक् द एरियल् फ्याक्टर् टु बि द सोर्स् आफ् दि एर् सन् अर्त् अण्ड् देन् द ह्युमन् बीयिङ्ग् सो दि एरियल् फेक्टर् इस् नङ्ग् बट् द आकाशभूता आकाशभूता इस् द सोर्स् फार् all of the other bhutas and what is the source of akasha bhuta is brahma brahma is the ultimate source sannikula sar sukshma tarati bhavati tat sukshma da brahma sukshma sukshatam tad anantara akasha asti tad sukshna tad anntaram bhavati da vayu yatha bhavati akasha kevalam shabdam vayam shotum shapnamaha एकम् इन्द्रियम् एवं केवलं तस्य गृह गिरीतं भवति यदि वायुः अस्ति तत्र अधो सूक्ष्मं भवति तत्र द्वि इन्द्रिय इन्द्रियं द्वयम् स्पर्शमपि भवति अपि तत्र वायो वयं श्रोतुमपि शक्नुमः तदनन्तरमस्ति तत् अग्नि तत् त्री इन्द्रियां त्रीणि भवति चक्षुषा वयं द्रष्टुं शक्नुमः तस्य स्पर्शमपि भवितुं शक्नोति अपि तस्य शब्दमपि अस्ति तदनन्तरमपि जलम् जलं चत्वारि इन्द्रियाणि टेस्ट् अपि भवति जलस्य तर्हि स्वादं भवति पृथ्वी घ्राणमपि भवति तत् पृथ्या तु इति सूक्ष्म स्थूलं भवति यत्र यत्र अधिकतन्मात्राणि भवन्ति तत्तु स्थूलं भवति यत्र तन्मात्राणि न्यूनानि तत्तु सूक्ष्म अपि रामायणे भगिनी इति अस्माकम् उदाहरणमस्ति यथा भगिनी दृष्टवती कथं पृथिव्यां मनुष्य आगच्छति यदि या, गौतमऋषि ऋषेः अभिशापं भवत् अहिल्या इति शिलाखण्डः अभवत् यदा राम तत् स्पर्शन् स्पर्शात् अहिल्या पुनः स्त्रीरूपं तस्य आगतः केवलं न केवलमिति कथा अस्ति अस्य ब्रह्म सर्वत्र अस्ति शिलाखण्डे पृथ्वी अपि अस्ति यथा हिन्दीभाषायां वयं वदामः करकण मे भगवान् इति च उदाहरणमस्ति कथा एका कथा साधु समीचीनं भगिनि इत्युक्ते तत्र शिलाखण्डः ए अपि तत्र चैतन्यमेव शिलाखण्डरूपेण अस्ति तत्र स्थूलीकरणं तावत् जातं क्षितिरूपेण क्षितितत्वरूपेण तद् शिलाखण्डः अस्ति सः अस्ति खलु आम् आम् तथैव वयमपि न जानीमः तत्सम् अस्माकं विकासः अभवत् इति मनुष्यरूपेण इति अत्र स्पष्टतया सम्यक्तया लिखितमस्ति अत्र बहु सम्यक् अस्ति अत्र सम्यक्तया अवगमनं न जातं चेत् एकवारम् आङ्ग्लभाषायाम् अपि पठन्तु पुनः अस्य विषये अग्रिमसप्ताहे अपि चर्चां कर्तुं शक्नुमः आङ्ग्लभाषायां यदस्ति तत् पठन्तु तत् तथापि अवगमनं सम्यक् नास्ति चेत् पुनः एकवारम् अग्रिमसप्ताहे द्रष्टुं शक्नुमः अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः